सर्वेभ्यः नमस्कारः अस्माकं मार्गः अनुवर्तते यः मार्गः गते वर्गे गते सप्ताहे तत्र के दुर् दुर्दैवात् वा अथवा तत्र अनिष्ट अनिष्टात् किमादपि इदानीम् तत्र अथवा मया वा तत्र अवकाशः कश्चन कृतः इदानीमेव यत्र अस्माभिः स्थगितं यत्र परित्यक्तः विषयः यः तस्मादेव आरभ्य अग्रे गच्छामः इदानीं कुत्र गते वर्गे अस्माभिः अभाववर्णनम् आरब्धम् इति मन्ये तत्रापि भवतु तत्रापि अभाववर्णने तत्र विरोध नाम सर्वप्रथमम् अभावः इति कश्चन पदार्थः सप्तपदार्थेषु एकतमः पदार्थः वर्तते सः अन्येषां पदार्थम् अन्येभ्यः पदार्थेभ्यः भिद्यते इति एकम् अपि च भवतु तस् इदानीं यतो हि प्रतीचशरणाः नैयायिकाः इति तत्र यत् अस्माभिः पुनः उच्यते तथा भवतु तत्र लोके अस्य अस्य अतिरिक्तस्य पदार्थस्य कः सीदिः का सीदिः इति भवतु यतोहि अस्माभिः अनेकवारमुच्यते घतो घतो नास्ति गतो नास्ति इति तस्यां प्रचीच्यामपि घताभावः अस्ति इति वक्तुं शक्यते इदानीम् अतः एव तत्र ला अपि च तत्र अनेके सन्ति अनेकाः सन्ति युक्तयः अग्रेपि द्रक्ष्यमानाः युक्तयः अनेकाः सन्ति या याभिः या अभावः इति अतिरिक्तः कश्चन पदार्थः अस्ति सोपि पदार्थः घट नास्ति इति तादृश तादृश तादृश्याः प्रचीत्याः मूलं भवति यदस्माभिः लोके तादृश तादृशानि ज्ञानानि उत्पद्यन्ते एतत् नास्ति किमपि नास्ति तत् नास्ति इति तस्य सर्वस्य प्रचीते मूलं वर्तते अभावपदार्थः ओके okay, इति एकं तदनन्तरं तत्र विरोधः इति अन्यः कश्चन कश्चन किं किञ्चन परिभाषिकं पदं दृष्टं पदार्थः वस्तुतः भवतु नाम पदार्थः इत्यपि वदामः कश्चन पदार्थः दृष्टः विरोधः तस्यापि द्वाविध्यम् अस्माभिः दृष्टम् नाम बाद्यबाधकभावः इति अथवा भद्य भद्य भद्यघातकभावः एकः तत्र उदाहरणमासीत् सार्पः नकुलश्च तत्र अभवत् इदानीम् यद्यापि सार्पे नकुले च एकस्मिन् स्थले उभयो तयोः समागमे यद्यपि अन्ततो केवलं नकुलः तिष्ठति इदानीं नकुलः सर्पं मारयति वा अथवा सर्पः कुदाचित् अन्यत्र उपसर्पति इति कृत्वा यदि एकस्मिन् प्रकोष्ठे एकस्मिन् स्थले उभयं कदाचित् प्राप्यते तदनन्तरम् एकः एव तिष्ठति इति यद्यपि तथा अस्ति तथापि एकस्मिन् कस्मिंश्चित् क्षणे उभय अपि एकस्मिन् स्थाने स्थातुम् अर्हतः अत एव तत्र गद्य भज्यघटकभावः इति कश्चन विरोधः विरोधः तिष्ठति अथवा युद्धसमये अपि तथा अस्ति युद्धसमये अन्ततो गत्वा एकः एव एकः एव मलः तत्र तिष्ठति अथवा एक ए एव सेना तत्र पराभवं करोति अन्यस्याः तथापि उभाव अपि एकस्मिन् एकस्मिन् क्षणे एकस्मिन् स्थाने स्थातुम् अर्हतः भवतु परन्तु सः तु भाद्यघातः भावः अन्यः अस्माभिः तु यः प्र यः इदानीं परिशील्यमानः वर्तते यथा यः इदानीं लक्ष्य लक्ष्यीभूतः यः वर्तते सः सहानवस्था सहा सहानवस्थाविरोधः सहानवस्थानिरोधः सः अनवस्था नाम यदि उभौ विरुद्धौ यदि द्वौ विरुद्धौ स्तः यदि द्वौ एकस्मिन् स्थले एकस्मिन् क्षणे च स्थातुं नार्हतः नैव शक्नुतः यथा घतः घताभावश्च तदा तादृशौ द्वौ अथवा तदा तयोः द्वयोः यः विरोधः अस्ति सः विरोधः सहानवस्था रूपविरोधः इति व्यवह्रियते शास्त्रे अत एव इदानीं तत्र भवतु नाम उदाहरणम् एकम् अत्यन्तं प्रसिद्धम् अत्यन्तं सुस्पष्टमपि उदाहरणमस्ति घटः घटाभावश्च इदानीं तादृश उद्वा कदापि कथमपि एकस्मिन् स्थाने एकस्मिन् क्षणे च उपलब्धुं न अर्हतः एव यतोहि यदि घटाभावः यदि घतो नास्ति तर्हि घतो नास्ति एव यदि घतो अस्ति तर्हि घतो नास्ति इति वक्तुं न नोप न उपपद्यते न युक्तम् अस्ति अत एव तयोः द्वयोः सहा अनवस्था नाम सहाचारे सहाचारेण सहाचारेण सः युक्त्या अवस्था नास्ति अथवा अवस्था न भवति अतः सः अनवस्था ओके ए चि इदानीं तथा कृतं तथापि तथा च तत्र अष्टदश अष्टदश अष्टदश किं पत् किं किमुच्यते पृष्ठे तत्र पत्रे तत्र उपरि चित्रसङ्ख्या एक एक किं ट्वेण्टि वन् एकविंशति एकविंशतितम एकविंशतितमं चित्रं वर्तते इदानीं तस्य चित्रस्य तत्र किम् उक्तं तस्मिन् चित्रे किं दृश्यते इति केवलम् इदानीं विरोधः इति कश्चन द्विनिष्ठपदार्थः अस्ति वस्तुतः विरोधः साक्षात् कर्षणसम्बन्धः इति वक्तुं शक्यते इदानीं यथा संयोगः सम्बन्धः अतः समवायसम्बन्धः सर्वदा द्व द्वयोः एव तिष्ठति इदानीं यदि हस्तद्वयोः संयो संयोगः क्रियते तर्हि अयं संयोगः सम्बन्ध सम्बन्धः संयोगरूपसम्बन्धः तादृशसम्बन्धः द्वयोः एव हस्तयोः तिष्ठति तथा एव समवायः यपश्चित् समवायः कश्चन सम्बन्धः समवायः अपि भवतु नाम द्रव्ये च कर्मणि यदिदानीं द्र क्रिया क्रियवतोः समवायः परिशील्यते तर्हि समवायः साक्षादेव द्रव्ये तिष्ठति नाम सर्पे तिष्ठति अपि च सर्पणक्रियायां गमनक्रियायां तस्य सर्पस्य गमनक्रियायाम् अपि तिष्ठति भवतु नाम इदानीं तादृशः विनिष्टः यदि विरोधः अस्ति तर्हि सर्वदा द्वयोः विरोधः अत एव विरोधः उद्विनिष्टः विनिष्टः पदार्थः वर्तते तदेव तत्र किम् एकविंशतितमे पृष्ठे चित्रे एयटीन् पेज् पिक्चर् ट्वेण्टि वान् उक्तं तदेव तत्र प्रतिपादितं निरूपितं वस्तुतः यत् विरोधः यः सः विरोधः अपि च घटाभावे घटाभावे अपि ओके okay. इदानीं तदनन्तरं प्रतियोगि प्रतियोगिता अनुयोगिता इति तद्विषये अस्माभिः वस्तुतः पतितं किञ्चित् तथापि पुनारकवारं पतामः इति मन्ये अतो हि तत्र विरामः जातः इदानीं सरं न स्मर्यते अस्माभिः केवलं प्रारब्धं तथा इदानीं पुनरेकवारं सविस्तरं सर्वं पठामः ओके okay, इदानीं मध्ये केचन आगतानि मन्ये चन्द्रप्रभा अपि च मलार् भगिनी इति दृश्यते सत्यं वा आं महोदय भवतु ओके तर्हि इदानीं मीनाक्षी भगिनी आरम्भं करोति नमस्कारः महोदय प्रतियो प्रतियोग्यनुयोगित प्रतियोगि अनुयोगिभावनिरूपणं तदेव खलु अत्र अत्र निरूपणसौकर्याय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता कृता अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति संज्ञा घटः प्रतियोगिता इति संज्ञा भवति अभावः अनुयोगिता इति संज्ञा भवति भगिनी अत्र इति सः वदति इदानीम् अत्र इति कुत्र भवतु अस्मिन् अस्मिन् स्थले इति सर्वं समीचीनं परन्तु सः सर्वदा तत्र सौकार्यं सौकार्यं लक्ष्यीकरोति अत एव अत्र इति उक्त इति वदनेन तत्र अस्माकं ट्वेण्टि फस्ट् चित्रसङ्ख्यायाम् एव वर्तते इदानीम् अत्र घटः तत्र विरोधः घटाभावश्च तत्रापि विरोधः आम् आम् इदानीं यः विरोधः घटे अस्ति नाम विरोधः ख ख नामकविरोधः तस्या विरोधस्य इदानीं नूतनं नाम नामधेयं सः सः दत्तवान् प्रतियोगिता केवलं वसदा निरूपणसौकर्याय सः एतत् करोति आम् आम् इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति साकाङ्क्षा विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति एवम् अनुयोगितायाः अपि ससम्बन्धिकत्वम् अतः आधेयता अधिकरणतयोः यथा निरूप्यनिरूपकभावः उच्यते तथा अत्रापि वक्तव्यः कस्य इति नियमेन खलु प्रश्नः भवति विरोधः प्रतियोगिता इत्युक्तौ कस्य इति प्रश्नः उदेति अनुयोगितायाः अपि ससम्बन्धिकत्वम् इत्युक्ते प्रतियोगिता अनुयोगिता ससम्बन्धिकत्वम् अस्ति किम् सयोः ससम्बन्धिकत्वम् अस्ति ससम्बन्धिकत्वं नाम किम् परस्परसम्बन्धं सम्यक् <laughs> सम्यक् अपि च यथा यथा उदाहरणमासीत् पुत्रपित् पित्र्योः पुत्रपित्र्योः यत् सम्बन्धम् अस्ति नाम उभावबन्धिकौ पिता इति पदे श्रुते तर्हि कस्य पिता इति साक्षादेव अपेक्षा साक्षादेव प्रश्नः उदेति तथा एव पुत्रः इति श्रु इति श्रुत्वा कस्य इति तदा तथा एव प्रश्नः साक्षादेव उत्पन्नः भवति तदेव प्रतियोगिता इत्युक्ते कस्य प्रतियोगिता इति प्रश्नः उदेति अपि च वस्तुतः यतो उक्तं हि उक्तं खलु प्रतियोगिता इति विरोधस्य अन्यनाम इति तथापि चिन्तय अत एव विरोधः नाम इदानीं किमपि रावणस्य अथवा दशरथस्य भवतु नाम रामस्य विरोधः इति श्रुत्वा विरोधः राममपि इदानीं विरोधः केवलं श्रुत्वा साक्षादेव कस्य अथवा केन अतः आधेयता अधिकरणतयोः यथा निरूप्य निरूपकभावः उच्यते तथा अत्रापि वक्तव्यः ष्ठा घटः निष्ठप्रतियोगिता निरूपिता अनुयोगिनि अनुयोगिता अनुयोगितावान् अभावः अपि च अनुयोगिताश्रयः अभावः अपि च अभावः अभावः निष्ठा अनुयोगिता निरूपिता प्रतियोगिताश्रयः घटः घटनिष्ठा प्रतियोगिता निरू तदेव अस्ति अत्रापि यत् चित्रं भगिनि यत् चित्रं कीदृशं वाक्यं निरूपयति कीदृशं वाक्यं अत्र अस्ति खलु निरूप्यनिरूपकभावः निरूपयति एवमेव वा हा सम्यक् तदेव परन्तु इदानीम् उदाहरणमपि ददामि यदि तत्र यदि वाक्यम् अस्ति किं वाक्यं यदि वाक्यमस्ति भूतले पुस्तकम् ओके तर्हि तस्य वाक्यस्य परिभाषिकं निरूपणं भवति भूतलनिष्ठा अधीयतानिरूप भूतलनिष्ठा अधिकरं तथा निरूपित अधीयताश्रयः पुस्तकम् इति यत् परिभाषिकम् तत् लोके केवलं भूतले पुस्तकम् अस्ति इति वर्तते तदेव घटनिष्ठप्रतियोगितानिरूपितानुयोगिताश्रयः भावः इति अस्य वाक्यस्य लौकिकं स्वरूपं किम् पुनरेकवारं वाक्यं महोदय नाम एतत् तत्र चित्रीभूतं यत् नाम चित्रं चित्रसङ्ख्या ट्वेण्टि त्रि वर्तते तस्य तस्य प्रतिपादनं शब्दैः प्रतिपादनं घटनिष्ठप्रतियोगितानिरूपित अनुयोगिताश्रयः अभावः इति इदानीं यद्वाक्यं तस्य लौकिकं स्वरूपं किं यथा भूतले पुस्तकम् इति तस्य पारिभाषिकं स्वरूपं वर्त इति लौकिकं अभावः सम्यक् अथवा घताभावः अस्ति अथवा घतो नास्ति वस्तुतः तथा घतो नास्ति अथवा घताभावः अस्ति सम्यक् इति लौकिकवाक्यस्य परिभाषकं स्वरूपं वर्तते घटनिष्ठप्रतियोगित निरूपित अनुयोगित तदाश्रयः तदाश्रय भवति अभावः अथवा अभावनिष्ठानुयोगितनिरूपितप्रतियोगिता तदाश्रयघटः सम्यक् भगिनी तर्हि किम् इदानीं अथवा गजभावः अस्ति तर्हि तत्र किं भवति गजः गजः निष्ठ प्रतियोगिता निरूपित अनुयोगिता अनुयोगितावान् अभावः सम्यक् इदानीम् अभावात् अभावः निष्ठा अनुयोगिता, अनुयोगिता निरूपिता प्रतियोगिता प्रतियोगिताश्रयः गजः समीचीनं समीचीनम् अत एव तथा यथा ah, प्राक् भूतले अधिकरणता पुस्तके आदेयता आसीत् तयोः निरूप्यनिरूपकभावः अस्माभिः दृष्टः तथा एव इदानीं यदा कस्यापि अभावः अस्माभिः निरूप्यते तर्हि तत्र यस्य अभावः तस्मिन् प्रतियोगिता अभावे अनुयोगिता वर्तते तर्हि तयोः तर् तत्र निरूप्यनिरूपकभावः अति सिध्यति ओके सम्यक् तर्हि किम् अन्तिममपि परिचयं पततु सामान्य सामान्यायोगिता निरूपिता अनुयोगिताश्रयः अभावः घटनिष्ठप्रतियोगिता यत् यत् चित्रे अस्ति तदेव अत्र वाक्यरूपेण दत्तमस्ति अनुयोगिता गटः इति निरूपितव्यम् अयमेव mm. सङ्ग्रहे वक्ष्यमाणेषु अभावेषु अत्यन्ताभावः इति निर्दिष्टः तत्र परिभाषिकं पदम् इति चिन्तयतु अग्रे तत्र अभावत्रयम् अस्माभिः रक्ष्यते तेषाम् अत्यन्ताभावः नाम तेषां यः अत्यन्ताभावः तस्य एतदेव स्वरूपं वर्तते इदानीं केवलम् एतावता एतत् पदाम् अस्माभिः श्रुतम् अग्रे यदा पुनरेकवारं शृणुमः तर्हि तत्र ओ आहात् मया प्रागेव ज्ञातम् इति तदभिप्रायेनैव कृतम् आं सम्यक् समीचीनम् अचान्तभावः प्रतियोगिता अनुयोगिता इति ज्ञातं वसतः यथा निरूप्यनिरूपकभावः अत्र अत्यन्तं प्रधानभूतः विषयः वर्तते यद्यपि केवलं तत्र तत्र शीघ्रम् एव निरूपितः अयम् विषयः अत्यन्तं प्रधानभूतः विषयः वर्तते तथा एव प्रतियोगिता अनुयोगिता अथवा प्रतियोगी अभावः अपि च अभा अभाव अभावसम्बन्धिप्रतियोगिता इति अयमपि विषयः अत्यन्तम् अत्यन्तं विशिष्टः विषयः वर्तते न्याये अथवा अत अत एव अग्रे तत्र बहु अस्माभिः अभ्यासः क्रियते तद्विषये बहुधा एव दृश्यते इदानीं गते काले अत्यसारम् अत्यन्तं समीचीनं स्पष्टं भविष्यति भवतु तर्हि प्रश्नः अस्ति चेत् पृच्छन्तु अथवा अन्यथा अग्रे एव तर्हि मीलां भगिनी पतति नमस्ते अत्र सामान्य अभाववर्णनं yeah. पूर्वं पूर्वस्मिन् यः परिच्छेदं तत्र दत्तमस्ति तत्र अत्यन्त अभावः इति तत्र लिखितमस्ति घटः अस्ति घटः नास्ति सो so hmm. तत्र अत्यन्त अभावः इदानीं hmm. सामान्य अभावः वर्णनम् इति अत्र लिखितम् अस्ति इदानीं तस्य सामान्य अभावः इति प्रकारः निरूप्यते <coughs> सामान्य अभावः किम् इति अत्र दत्तमस्ति <coughs> प्रतियो प्रतियोगिताभावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितम् प्रतियोगिता प्रतियोगिताभावपदार्थे घटादौ विद्यमानविरोधः इति निरूपितं तत्र प्रतियोगिता यः पदम् अस्ति वयं जानीमः घटे विद्यमानस्य विरोधः इति प्रतियोगिता सो तत् वयम् इदानीं जानीमः तत्र निरूपितम् अस्ति सा प्रतियोगिता यदा एकजाती एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सह सामान्य अभावः अभावः इति उच्यते सो hmm. so, uh, सा प्रतियोगिता यदा एकजातियुक्तेषु यदि प्रतियोगिता यः पदम् अस्ति यः विरोधः अस्ति घटे विद्यमानः विरोधः यदि एकम् एव जातिमध्ये प्रतियोगिता अस्ति स जाति समानजातिमध्ये तत्र विरोधः अस्ति तस्य भवति तदा सा सः सामान्य अभावः इति उच्यते तस्य नामः अस्ति सामान्य अभावः एकजाति इत्युक्ते महोदये किं एकजाति एकजा स एकजातिः तत्तु सरलमेव नाम एक एका जातिः नाम एकं सामान्यं यथा घटत्वम् इति सामान्यं घोत्वम् इति च सामान्यं तर्हि एकम् एव एकां जातिम् आदाय यत् तत् जातियुक्तम् नाम एकजाति एक एक एकजातिकम् इदानीम् इयां गौः इयां गौश्च स सर्वाः ग गवः एकजातियुक्ताः नाम गोत्वजातियुक्ताः इदानीम् अपि च सः इदानीम् एकजातियुक्ते एकजातियुक्तम् इति अस्या प पदस्य सः पर्यायपदं ददाति एतत्तु पर्यायपदं सः परिभाषिकम् अस्ति अतः एव एतत् तत्र किञ्चित् तत्र स्मारयतु सजाचीयं नाम सज् तथा अग्रे अनेकधा एतत् पदम् आगमिष्यति सजातीयाः पदार्थाः सजातीयपदार्थाः नाम के ये सर्वे एकस्मिन् एकस्यां जातौ युक्ताः तादृशाः सजातीयाः नाम सर्वे सर्वे सर्वाः गवाः एकजातीयुक्ताः नाम सर्वाः पद गवाः सजातीयाः सन्ति इदानीं सः इदानीं सामान्याभावस्य इदानीं किञ्चित् लाक्षणं ददाति तदनन्तरं पुनरकवारं प्रतिपादयति इदानीं सः वदति सामान्याभावः यदा यदा अभावः यः अभावः सर्वेषु सजातीयेषु सर्वेषु एकजातीयुक्तेषु याव यावन्तः एकजातियुक्ताः सजातीयाः सन्ति तावत्सु एव अयम् अभावः वर्तते इदानीं यावन्तः स गोत्वजातिविशिष्टाः सन्ति गोत्वजातियुक्ताः सन्ति तावत्सु एव सर्वासु गो अभावः इयम् इदं अयं अयं सामान्य अभावः वर्तते परन्तु अग्रे पश्यामः अग्रे पुनर् आम् अस्तु सामान्यस्य अभावः इति यदा श्रुते तु अयं जातेर्भावः स्यात् आम् सोरि जातेः जाते अभावः स्यात् कुतः सामान्यं नाम प्राग् प्राग् उक्तरीत्या जातिः तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्य अभावः इत्यस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इति अर्थः स्यात् न अयं विवक्षितः किन्तु सर्वस्य घटस्य अभावः घटसामान्यं गट यत् गटत्वं तधान् सर्वोपि घटः तस्य अभावोऽयं को अर्थः सर्वोऽपि घटः अस्य येन केनापि घटेन घटसामान्य गट अभावस्य अपसारणं कर्तुं शक्यम् अत्रेदं ीचीनम् उदाहरणं पश्यामः uh, बै, इदानीं केवलं वाक्यसः गच्छामः uh, तत्र किं कुत्र कियत् दूरं गण समाजस्य अभावः इति यथा श्रुते तु अयं जातेरभावः स्यात् ओके okay, इदानीं सर्वप्रथमं सः सा किं की, किमपि लक्षणं दत्तवान् सामान्यभावः नाम यः अभावः सर्वेषु सजातीयेषु अस्ति सः सामान्य अभावः इति सः उक्तवान् भवतु इदानीम् इति इति इति एकः प्रकारः ओके okay, तथा लक्षणं दत्तवान् इदानीं तदेव तदेव लक्षणं सः प्रतिपादयति इदानीं तस्मिन् लक्षणे श्रुते सचि कश्चन अनुपपन्नः कश्चन दोषः प्रतिपा प्रतिपात् प्रतिपत् किं प्रतिपात्तरी तत्र यः यः तादृशं लक्षणं शृणोति तस्य कश्चन दोषः नाम भ्रामः तत्र उत्पादयितुं शक्यः वर्तते कोयं दोषः इति चेत् इदानीं सामान्यस्य अभावः इति यथा श्रुते नाम यथा यथा यथा यथा श्रुचिः वर्तते यथा श्रुतम् एतत् लक्षणं तर्हि कश्चन सामान्यभावः इति तस्य पदस्य जातेर् अभावः इति कदाचित् अवगच्छति अवगच्छति आम् किमर्थं यतो हि सामान्यं प्राक् अस्माभिः दृष्टम् इति जातिः इति जा, जातिपदार्थस्य अन्यः पर्यायः वर्तते सामान्यम् साधु वा तर्हि इदानीं सामान्याभावः तर इति यदा एतदेव अस्माभिः तदा जाति अभावः इति भवतु तत्र सामान्यम् इति अस्य स्थाने जाति इति पदं निक्षिप्य जाति अभावः सामान्यभावः इति यथा अस्माभिः श्रूयते साक्षादेव षष्ठी तत्पुरुषः इव इति अयम् इदं पदं भाति नाम सामान्यस्य अभावः अथवा जातेरभावः इति यथा भवतु घताभावः इति श्रुते घटस्य अभावः इति यदा अस्माभिः अवगमनम् उत्पद्यते तथा एव सामान्याभावः इति श्रुते सति सामान्यस्य अभावः अथवा जातेः अभावः इति अवगमनमपि उत्पत् तत्र उत्पद्यते एव उत्पद्यते वा अवगच्छति mm. वा भगिनि ओके तत्तु तत्तु अनिष्टम् इति सः वदति अथवा नायं विवक्षितः विवक्षितः नाम किं जानाति वा भगिनि अथवा विवक्षा नाम का जानाति वा ज्ञातुम् इच्छाक्षि वक्तुं वक्तुम् इच्छामि सा तु अथवा अयम् इदानीं गता किं क्षम्यताम् घटस्य इति न कुत्र स्मः सामान्यस्य क्षेदा सामान्यस्य अभावः यथा सामान्यभावः इति पदे श्रुते यः सामान्यस्य अभावः इति षष्ठित्वपुरुषरूपः अवगमः तत् षष्टिरूपः अवगमः यथा उत्पन्नः भवति सः अनिष्टः सः अविवक्षितः सः न समीचीनः इन्टेन्शन् विवक्षः इन्टेन्शन् सः इण्टेन्शन् इण्टेण्डेट् नास्ति सः अनिन्टेण्डेट् वर्तते सः अनिष्टः इति परन्तु इदानीं कः समीचीनः अवगमः इति सः इदानीं प्रतिपादयति भगिनि तदारभ्य तत्र प्रयत्नं करोति तथा अत्यन्तं किमपि दुर्गमं नास्ति तत्र नयां विवक्षितः किन्तु इति किन्तु इति अत्र कृपया प्रयत्नं करोति किन्तु सर्वस्य घटस्य अभावः वयं जानीमः घटः <laughs> अस्ति अथवा घटः नास्ति तत्र सर्वस्य घटस्य अभावः इत्यस्य एकनिमेष एक घटसामान्यं यत् घटत्वं <laughs> तदा सर्वोऽपि घटः नाम सर्वेपि गताः इति तथापि आगच्छन्तु तस्य अभावो अयम् एतावता किञ्चित् चिन्ता यः घटजातिः अस्ति तत्र यदि घटस्य अभावः इत्युक्ते घटस्य अभावः वदामः चेत् तत्र घटसामान्यं यः घटत्वम् तस्य अभावः नास्ति गतसामान्यं तदभावः इति नास्ति इति तत्तु अनिष्टः तत्तु अविवक्षतः एव परन्तु गतसामान्ययुक्तं यत् तस्य सर्वस्य अभावः अत एव प्र एकजातियुक्तेषु एकयुक्ते जातियुक्तेषु यः अभावः स सामान्याभावः अत एव न अत एव सामान्याभावः इति उक्तत्वे इत्युक्तत्वात् न घटत्वाभावः इति तथावगमो मा भवेत् मास्तु परन्तु घतसंयुक्तस्य सर्वस्य अभावः इदानीं घतसंयुक्तं नाम किम् अथवा घतसंयुक्तः कः क्षम्यतां न घटसंयुक्तः घटत्वसंयुक्तः क्षम्यतां घटत्वयुक्तः घटत्वयुक्तः कः घटत्वयुक्तः इत्युक्ते यस्मिन् घटत्वगुणम् अस्ति सः गुणः नास्ति सामान्यं सम्यक् कुत्र कुत्र अस्मिन् लोके घटत्वसामान्यम् अस्ति पुस्तके अस्ति वा घटे जाति त्वसा तदेव केवलं घटे अस्ति नाम केवलं घटेषु सर्वथा वस्तुतः केऽपि लोके विद्यमानाः घटाः सन्ति तेषु सर्वेषु घटत्वं परन्तु अन्यत्र कुत्रापि नास्ति अतः एव इदानीं तथा एव वदामः इदानीं यदि घटो नास्ति इति इति इति वदामः चेत् तर्हि अस्य बतु तत्र कदाचित् अन्यः अपि अर्थः कोपि परन्तु सामान्यतः किमभिप्रेतं यत् इदानीं किमपि घोपि गतः अत्र नास्ति यः किमपि घटत्वसम् कोऽपि गतः नास्ति इति अस्य अथवा इति अस्य तत्र न्याय न्यायभाषायाम् इति अस्य इति वाक्यस्य कथाम् अर्थः प्रतिपद्यते कथाम् इदम् अर्थः अयम् अर्थः तत्र सुस्पष्टतया शास्त्रीयभाषया कथां प्रतिपद्यते यत्किमपि घटत्वसम्बद्धं वास्तु वर्तते तस्य अत्र अभावः किमपि घटत्वयुक्तं किं गतत्वयुक्तं सार्वः एव गतः नाम सर्वे लोके विद्यमानाः घटाः घटत्वयुक्ताः एव सन्ति न तु अन्ये के न न तु अन्ये केऽपि नाम पुस्तकं यत् किमपि पुस्तकं तत्र भमीपे विद्यमानं पुस्तकं मत्समीपे विद्यमानं पुस्तकं तत्र मीनाक्षि भगिन्याः समीपे विद्यमानं पुस्तकं तत्र सर्वेषु अपि पुस्तकेषु घटत्वं नास्ति एव परन्तु घटे तत्र तथा एव अन्यथा एव नाम मत्समीपे घटत्वयुक्तः भवतीयाः समीपे यः घटः सोऽपि घटत्वयुक्तः किमपि पदार्थस्य घटः नाम अस्ति तस्य अभावः आं तदेव तदेव इदानीं तस्य एतत् एतदेव किञ्चित् तत्र किं जीर्घ अर्थं प्रतिपादयितुं नायिकैः सामान्यभावः इति कश्चन तत्र पारिभाषिकं पारिभाषिकः शब्दः पारिभाषिकं पदं तत्र उत्पद्यते उपयुज्यते वस्तुनः उपयुज्यते सामान्यभावः नाम यः सामान्ययुक्तस्य सर्वस्य सामान्ययुक्तस्य अभावः अपि च तदग्रे सर्वोऽपि गतः इति अत्र आरभ्य पुनर्कटः अभावस्य केनापि घटेन घटसामान्य अभावस्य अपसारणं कर्तुं शक्यम् mm. uh, अर्थः विरोधिः घटसामान्य अभावस्य अपसारणं mm -hmm. uh, कस्यचित् यः घटसामान्यम् अभाव अभावस्य अपसारं कर्तुं शक्यं स्पष्टं नास्ति महोदय परन्तु यथा प्राक् एव इदानीं इदानीं भवतु मया प्राक् उक्तम् इदानीं घटसामान्याभावः नाम तस्यार्थः कः न तु घटसामान्यस्य न तु घटत्वाभावः परन्तु घटत्वयुक्त युक्तस्य अभावः इति एतावता अवगच्छति वा भगिनि आम् घटत्वयुक्त अभावः अवग हा सम्यक् एतादृशः अभावः घटत्वसामान्य अभावः इति इदानीं सामान्य अभावः इति किमपि परिभाषिकं पदं वर्तते सामान्य अभावः सामान्य अभावः इति अस्यार्थः सामान्यस्य अभावः नास्ति परन्तु सामान्ययुक्तस्य अभावः इति तात्पर्यम् इदानीं घट इति उदाहरणत्वेन घटम् उदाहरणत्वेन स्वीकृत्य घटसामान्यभावः इति उक् इति उक्तौ न हि घटत्वाभावः इति अवगच्छ अवगम्यते परन्तु घटत्वयुक्तस्य अभावः घटत्वयुक्तः कः सार्वः एव घटः इति प्राक् इति प्राक् प्रा प्रा प्रा प्रतिपादयति स्मा सः इदानीं पुनारकवारं तस्य पुनारकवारं प्रकारेण अपि तदेव तदेव आर्थं प्रतिपादयति इदानीं घट गता, घट गता, घटत्वयुक्तस्य अभावः इति उक्तत्वात् तस्याः कः कः पः अभिप्रायः एतत् अवगन्तुं शक्यते इदानीं प्राक् अस्माभिः उक्तं घटाभावस्य च विरोधः वर्तते सहानावस्थारूपविरोधः अत एव यदि घटाभावम् अपसर्तुम् इच्छामः तर्हि घटम् अनायामः इदानीं गाते घटे अनीते सति घटाभावः अपसरति एव अपगच्छति सम्यक् वा तर्हि इदानीं तर्हि इदानीं यदि गतसामान्याभावः इति वदामः चेत् तर्हि यदि गतसामान्याभावः अस्माभिः परिशील्यते तर्हि एतादृशस्य घटसामान्याभावस्य सर्वोपि गतः नाम यः कोऽपि गतः अपसा अपसारकः भवितुम् अर्हति नाम तं घटसामान्याभावं यः कोऽपि यः यः कोऽपि घटः अपसर्पयति अपसारयति त्यजति यदि घटसामान्याभावः अस्ति तर्हि यः कमपि घटम् अन् अनाय अन् अनाय अस्माभिः तादृशस्य घटसामान्याभावस्य अपसर्पणं कर्तुं शक्यते आम तर्हि स्वशब्दाैः किञ्चित् तत्र यः सारः भवत्या अवगतः तत् कृपया स्वशब्दाै वदतु अत्र अस्मिन् परिषदे सामान्य अभावः इत्युक्ते किं रचने अत्र लिखितमस्ति अत्र यः सामान्य अभावः वदामः चेत् एकजातियुक्तः यः अभावः यः सजाती सदा सजातेषु यः अभावः तत्र अस्ति तस्य नाम अस्ति सामान्य अभावः अनन्तरं तत्र घटस्य उदाहरणमस्ति सो so, घटस्य uh, अभावः इति न तत्र घट गट, घटत्वं यः घटत्वं यः घट सामान्य अभावः अस्ति तस्य नाम अस्ति सा, आ, आ, सामान्य अभावः इति घटे जाति तत्र आ, अस्ति hmm. तत्र लोके यत्किमपि घटम् अस्ति तस्य तत्र सर्वे घटे घटाः तत्र घटत्वं वयं जानीमः तत्र घटत्वं वर्तते सो तत् घटत्व अभावः इति अभावः इति तत्र धन्यवादः तर्हि अपार्णा भगिनी अग्रे पतति वा भगिनी किमपि न श्रूयते भगिनी पी अन्म्यूट् अस्ति तथापि ध्वरः नागच्छति सा अनन्तरं इतावत इति मन्ये दर्शि महोदय एतावता भवानेव पठतु कृपयामि भवान् समीपुस्तकं नास्ति नास्ति वा पीडि एफ् घटयामि एकनिमिषः हरि ओम् हरि ओम् इदानीं सम्यक् श्रूयते इदानीं नरसिंहमहोदय पततु भगिनी अनन्तरं पठति आं महोदय इदानीं तु सम्यक् श्रूयते कुत्रचित् कुत्रचित् कारणात् कुतश्चित् कुत्रचित् कारणात् मत्स्य जलस्य च वियोगः जातः स मत्स्यः त्रस्यति लुटति च कुतः स जलमपेक्षते अर्थात् स जलाभावं पश्यति अनुभवति कीदृशजलाभावं जलसामान्याभावम् कुतः किमपि जलं मत्स्येनानुभूयमानं जलाभावं वारयितुं प्रभवति कश्चित् तस्मै नदीजलं दद्यात् कश्चित् तडाजलं दद्यात् कश्चित् कूपजलमपि दद्यात् यत्किञ्चित् जलं तदाभावस्य विरोधि विरोधरूपप्रतियोगिता नदीजले तडागजले कूपजले अन्यस्मिन् सर्वोऽपि सर्वजलस् सर्वस्मिन्नपि जले वर्तते अतः अयं जलसामान्य अभावः वक्ष्यमाण अभावो अभावयोः एवंविध प्रतियोगिता न भवति इति विशेष अत्र जलसामान्य अभावस्य एकम् उदाहरणं दत्तमस्ति तत्र इदानीं वयं तस्य निरूपणं प पठितवन्तः पट, कुत्रचित् कारणात् मत्स्य जलस्य च वियोग वियोगः जातः मत्स्य अस्ति तस्य जल जलस्य च वियोगः जातः तदा मत्स्य किं करोति इत्युक्ते जलस्य कृते तस्य ते लुटति किम किम किमर्थमित्युक्ते तत् जलम् अपेक्षते अर्तत् तत् जलाभावं पश्यति अनुभवति मस्य कीदृशजलाभावम् अत्र प्रश्ने अस्ति कीदृशजलाभावं जलसामान्य अभावं किमर्थं किमपि जलं मस्य अनुभूयमानं जलाभावं वारयितुं प्रभवति किमपि जलेन मस्य य जलाभावम् अनुभवति तत् तत् तत् वारयितुं शक्नुमः Uh, कश्चित् तस्मै नदीजलं ददात् कोऽपि नदीजलं दद्यात् कोऽपि कूपजलं दद्यात् कोऽपि तडागजलं दद्यात् किमपि जलेन तस्य जलाभावं नश्यति uh, यत्किञ्चित् जलं तस्य भावस्य विरोधि uh, तद् अभावस्य विरोधि तस्य अभावस्य विरोधि तत्र किमपि जलस्य जलस्य जलेन तस्य जलाभावं नश्यति तत् जलजलम् अनुभवति विरोधरूपप्रतियोगिता नदीजले तडागजले कू कूपजले अन्यस्मिन् सर्वस्मिन्नपि जले वर्तते प्रतियोगिता इति वयं दृष्टवन्तः पूर्वं प्रतियोगिता इति इत्युक्ते तस्य जले तत्र जल जलाभावस्य प्रति प्रतियोगिता भवति अत्र किमपि जले तस्य जलाभावस्य कृते प्रतियोगिता भवति इति नदी अपि भवति तडागजले अपि भवति कूपजले इति भवति तत्र अग्रे किमपि दत्तमस्ति वक्ष्यमाणभावः इत्युक्ते तत्र अग्रे आयास्यति तत्र एवंविध प्रतियोगिता न भवति इति विशेषः अत्र यथा नदीजले कूपजले सर्वस्मिन्नपि जले प्रतियोगिता जलाभावस्य कृते भवति तत् अग्रे ह्यः भावः तत्र एतत् न भवति इति दत्तम् सम्यक् समीचीनं समीचीनं महोदय एतत् स्पष्टम् इदानीं वा तत्र सामान्यभावः नाम कीदृशः स्पष्टमिति भाति अथवा तत्र इदानीं अभावद्वयम् अग्रे आगच्छति तत् कीदृशम् इति इति दृष्ट्वा सामान्य अभावस्य कः विशेषः इति तदापि स्पष्टः भविष्यति इति मन्ये अतः एव किञ्चित् अग्रे पश्यामः इदानीं तत्र अभावद्वयम् अग्रे वक्ष्यमाणम् अभावद्वयम् इति यदुक्तं तद् विशेष अभावः अपि च विशेषविशेष अभावः इति इदानीं ताव एव पश्यामः तर्हि इदानीम् आपार्णो भगिनि कृपया आम् हरिः ओं महोदय श्रूयते खलु श्रूयते इदानीं सम्यक् विशेषाभावः विशेष तत्र द्वितीय अभावः द्वितीय तत्र चाटकपक्षिणम् संप्रदाये उदाहरन्ति स पक्षी वृष्टिकाले वृक्षस्य उच्चतमशाखायाम् उपविश्य शिरः उन्मयय मेघम् पश्यन् वृष्टि वृष्टिम् अभिवाञ्चति कुतः कोऽपि mm. जलाभावम् पश्यति किं तेन दृश्यमानः अभावः नदीजलेन कूपजलेन वा वारयितुं शक्यः नैव वा। कश्चित् कूपजलमादाय तस्यै यच्छति चेत् न, न, न, न, न सः तुष्यति अतः अयं जलविशेष अभावः जलविशेषस्य अभावः अस्य प्रतियोगिता सर्वस्मिन् जले न वर्तते किन्तु जलविशेषे किं तत् वृष्टिजलम् अतः तदेवं नाशयितुं प्रभवति तस्मात् वृष्टिजलं नास्ति इति अयं जलविशेषाभावः अत्र एकम् उदाहरणं दत्तं hmm. कथं पक्षी पक्षी चाटकपक्षी वृक्षस्य hmm. उपरि उपविश्य यदा वृष्टिः आयाति वृष्टिजलात् वृष्टि वृष्टिजलं वाञ्छति तदा, mm. स, तदा सा तदा सा पक्ष उपरि तत् शाकस्य अधः उपविशति mm. परन्तु तत् जलं, जलं अन्यजलस्य सामान्यं नास्ति तस्मात् mm. किं तेन दृश्यमानः अभावः नदीजलेन कूपजलेन वा वारयितुं शक्य वा वृष्टिजलं mm. भिन्नं नदीजलं भिन्नं कूपजलं भिन्नं परन्तु जलमेव एतत् जलस्य अभावः सामान्य अभावः सामान्यतया नास्ति तद्विशेष अभावः अस्ति कश्चित् कूपजलं केनापि कः केनापि कूपजलं स्वीकृत्य तत् उपरि तुष्यति न सः चेत् न न सः तुष्यति अतः अयं जलविशेष अभावः जलविशेषस्य अभावः अस्य प्रतियोगिता सर्वस्मिन् जले न वर्तते किन्तु जलविशेषे तस्मात् एतत् वृष्टिजलस्य विशिश् विशेषमस्ति तस्मात् वृष्टिजलं वृष्टिजलस्य अभावः अन्यजलस्य अभावः नदीजलस्य अभावः वा कूपजलस्य अभावः वा तुल्यं तुल्यं कर्तुं न शक्यते सम्यक् उक्तं सम्यक् अत्यन्तं समीचीनं सर्वम् अपि भवती सर्वं स्पष्टम् अवगच्छति इति तथा भाति सम्यक् तर्हि भगिनी तत्र चित्रसङ्ख्या ट्वेण्टि तस्यापि निरूप करोतु नाम तत्र वाक्येन निरूप वाक्येन निरूपणं पूर्वमपि दृष्टं कथं घटम् अभा घटम् अनन्तरम् अभावस्य प्रतियोगिता अनुयोगिता सम्पर्कः शं, दृष्टम् इदानीं वृष्टिजलं वृष्टिजलस्य अभावस्य निरूपितभावं पश्यामः वृष्टि वृष्टिजल वृष्टिजल वृष्टिजलनिष्ठप्रतियोगिता निरूपित अनुयोगित आश्रयः अभावः विपरीतं वक्तव्यं वा कृपया विपरीत अभावात् आरभ्य अभावात् अभाव अभाव निश्च अनुयोगितनिरूपितप्रतियोगित आश्रयः सम्यक् समीचीनं समीचीनम् अत्यन्तं समीचीनं तर्हि नरसिं महोदय भवान् अपि वदतु भवतः भवतः तत्र जलसामान्याभावः इति तस्य किं भवति निरूपणम् अस्माकं तत्र निरूप्यनिरूपकभावदृष्ट्या कथम् एतदुच्यते जलसामान्याभावः जलसामान्यभाव इदानीं तथापि पुस्तकं नास्ति तथापि जल जलसामान्यभावस्य जलसामान्यभावः न जलसाम जल जलसामान्यनिष्ठ प्रतियोगितानुरूपित अनुयोगिता आश्रयः जलसामान्यभावः गुरुजि न्यूनमस्ति वा जलसामान्य जलसामान्यभाव जलसामान्यभावनि जलसामान्य जल सामान्यजलनिष्ठप्रतियोगिता निरूपित अनुयोगिता आश्रयः सामान्यजलं जलसामान्य अभावम् सम्य सम्यक् अथवा केवलं जलनिष्ठप्रतियोगिता प्रतियोगिता जलनिष्ठप्रतियोगिता तद् विवादनिष्टप्रतियोगितानिरूपित अनुयोगिताश्रयः अभावः तथापि वक्तुं शक्यते इदानीम् अभावः केवलम् अभावः अपि च जलसामान्यम् इति तस्मिन् सां जल इति उक्तत्वात् तदेव स एव वार्ता सिद्ध्यति परन्तु यथा भवान् उक्तवान् तथा दोषोपि नास्ति सम्यक् इदानीं विपरीतरूपेण गच्छतु कृपया यदपि गतवान् तथापि पुनर्कवारम् आ, नाम अभावात् आरभ्यनिरूपित प्रतियोगिता जलम् एतावतावस्तः यः अर्थः भवता तत्र सम्पूर्णरूपेण तत्र उक्तः नाम जलसामान्यनिष्ठ इत्यादिकं तज्जलसामान्य अभावम् पर्यन्तम् यद्यपि भवतु तत्र दोषः नास्ति तथापि यतोहि वयम् सर्वदा लाघवम् पश्यामः अतः एव लाघवम् आश्रित्य तत्र जलम् अभावः इति उक्तत्वात् स एव अर्थः आगच्छति यतोहि अत्रापि यत्र भवतु विशेष अभावः तत्रापि केवलम् अभावः वर्तते प्रतियोगिता कीदृशी अथवा प्रतियोगिता कुत्र अस्ति इति अनेन एव तत्र विशेषः अस्माभिः अवगम्यते भवतु नाम सम्यक् समीचीनं तर्हि इदानीं हा धन्यवादः इदानीं तर्हि विशेषविशेष श्रीलक्ष्मी भगिनि वा नमस्ते महोदय विशेषविशेषाभाववर्णनम् इतोपि अन्यं विशेषविशेषाभावं सम्प्रदाये निरूपयन्ति स च स्वातिनक्षत्रीयवृष्टिजलाभावः तथा हि सूर्यः प्रायः चतुर्दश वा दिनानि एक नक्षत्रे मृगनक्षत्र आरभ्य हस्तक्षत्र पर्यटन नवसु नक्षत्रु सूर्य सती साधमासचतुँ प्रचुरा वृष्टि तत चिरा स्वाती नक्षत्र नक्षत्रो किंचिदना वृष्टि अय नक्षत्रक यदा स्वातीनक्षत्रीया वृष्टिः आसन् आसन् न आसन् न भवति वा आसन् किम् न भवति इति वा यदा स्वातीनक्षत्री न भवति इति चिन्तयामि तदा सागरे गभीरे जले स्थिता शुक्तिका जलोपरि समेत्य नक्षत्रस्य वृष्टिजलं कामयते अत्र इतोपि अधिकं तृतीयं तृतीयविध अभावः वर्णनमस्ति इतोपि अन्यं विशेषविशेषाभावं सम्प्रदाये निरूपयन्ति तृतीयं विशेषविशेषाभावः तस्मिन् विषये स च स्वातीनक्षत्रीयवृष्टिजलाभावः पूर्वं जलाभावः दृष्टवन्तः द्वितीय स्थि स्थितौ तत्र वयं वृष्टिजलस्य अभावः वृष्टिजल अभावं दृष्टवन्तः अत्र स्वातिनक्षत्रीयवृष्टिजलाभावः वृष्टिजलजले अपि विशेषरूपेण स्वातिनक्षत्रीय नक्षत्रसमये यद्वृष्टिः भवति तस्य जलस्य अभावः तत्र लिखितमस्ति सूर्यः प्रायः चतुर्दश पञ्चदश दिनानि एकस्मिन् नक्षत्रे तिष्ठति एकमेकं एकम न नक्षत्रे चतुर्दश अन्यथा पञ्चदशदिनानि तिष्ठति mm -hmm. मृगनक्षत्रम् आरभ्य हस्तनक्षत्रपर्यन्तं नवसु नक्षत्रेषु सो so, मृगनक्षत्रमारभ्य हस्तनक्षत्रं पश्यामः नव नक्षत्राणि सन्ति अतः फिफ्टीन् इण्टु नैन् पश्यामः चेत् हण्ड्रेड् अण्ड् फैव् सो फोर् अण्ड् प्रचुरा वृष्टिः भवति प्रचुरा इत्युक्ते अधिकं वा बहु अधिकं वा प्रचुरा वृष्टिः बहु अधिकं वृष्टिः भवति ततः आफ्टर् देट् चित्रा स्वातिनक्षत्रयोः इति चित्रा अनन्तरं स्वातिनक्षत्रयोः किञ्चित् ऊनावृष्टिः किञ्चित् न्यूनं न्यूनावृष्टिः भवति अयं नक्षत्रकालः प्रायः कार्तिकमासी भवति कदा चित्रा स्वातिनक्षत्रं भवति कार्तिकमासे मासे भवति तस्मिन् मासे भवति यदा स्वातिनक्षत्रीया वृष्टिः आसन् आसन् न भवति वा आसन् न भवति भवति वा आरब्धं भवति तस्मिन् तस्मिन् समये यद् सागरे शुक्तिका अस्ति शुक्ति शुक्तिका इत्युक्ते शेल्स् तद् शुक्तिका अस्ति जलोपरि समेत्य जलोपरि आगत्य स्वातिनक्षत्रस्य वृष्टिजलं कामयते तस्य इच्छा तस्य इच्छा अस्ति स्वातिनक्षत्रीयवृष्टिजलस्य इच्छा अस्ति शुक्तिकायाः यथा चातकपक्ष पक्ष् इच्छा वृष्टिजलं तादृशं शुक्तिकायाः इष्टम् अस्ति स्वातीनक्षत्रीयवृष्टिजलम् इति अतः तस्मिन् समये तद् सा उपरि आगत्य तत् स्वीकरोति इति आम् अतः एव सः नाम सा शुक्तिका विशेषविशेषाभावम् विशे अनुभवति इति तथा वक्तुं न शक्यं यतः प्राक् केव, केवलं जलसामान्यस्य जलसामान्यविशिष्टयुक्तस्य अभावः आसीत् इदानीं द्वितीयस् द्वितीयसोपाने तत्र जले कश्चन विशेषः अस्माभिः निहितः जातः इदानीं केवलं जलं परन्तु तत्र किं वृष्टिः वृष्टि उद् वृष्टेः वृष्ट्याः भवतु वृष्टि वृष्ट्युद्भुतं जलम् इदानीं तु न केवलं वृष्ट्युद्भुतं परन्तु कस्मिंश्चित् तत्र विशिष्टे दिने तत्र दिनवि दिनविशेषे दिनविशेष दिनविशेषावत् किमावचि दिनविशेषविशिष्टः दिनविशेष दिनविशेष दिनविशेषविशिष्टवृष्टि तद्विशिष्टजलं तस्य अभावः इति अस्मिन् तृतीये विशेषविशेष विशेषविशेष अभावः किञ्चित् तस्य अर्थः समीचीनं भगिन्या सम्यक् प्रतिपादितं तत्र नक्षत्रविषये मम किमपि न ज्ञायते परन्तु भगिन्या सर्वं सम्यक् एव प्रतिपादितं समीचीनं तर्हि अग्रे अग्रे तत्र अर्जुनसखा महोदय तदति वा तावत् शृणोति तावत् किं न पतति वा तथा पुनरेकवारं तृतीयंवारं कृपया प्रयत्नं करोतु इति त्रिवारं प्रयत्नं कृत्वा तत्र न संसिद्ध्यति अर्थः Так, ебату нам. А да? Вот она, та, та, она там. He is using uh, uh, Bluetooth speakers. Bluetooth. So if he opens there will be reverberation uh, echo. Вот она, мама. भवतु ओके तर्हि अनन्तरं वा महोदय पश्यतुमिच्छति कृपया छात् मध्ये तत्र स्थापयतु अहं पठामि परन्तु भवतु इदानीं तु दोषः तत्र ध्वनि ध्वनिदोषः आगच्छति भवतु प्रयत्नं करोति वा अन्तिमवारं ओके तर्हि तर्हि तर्हि तर्हि तर्हि बि वि गोस्वामी महोदय सः अस्ति एव पतति वा महोदय बि वि गोस्वामी महोदय नास्ति चेत् तर्हि मलार्भगिनी पतति वा आं महोदय नमस्ते महोदय अर्थात् स्वादिनक्षत्रीयवृष्टिजलजलाभावः जलाभावं जला पश्यति न अयम् अभावः कूपजले नदीजले वा शक्यः निवारयितुं नापि येन केनचित् वृष्टिजलेन चित्रनक्षत्रीयवृष्टिजलस्य जलसत्त्वेन सत्वे सत् अभी नी शुक्ति तत्ना केवल स्वादीनक्षत्रीयृक्षिजल वाचती अतः अस्य अभावस्य प्रतिग न जल सामी वृष्टिजल साजलमेव जल विशेष वृष्टिजलस्यापि अयं विशेषः यत् स्वातिनक्षत्रीयवृष्टिजलं तस्य अयम् अभावः अतः विशेषविशेषाभावः इति उच्यते एवमेव सर्वत्र पुष्पसामान्यभावः नीलपुष्पाभावः सत्कालिकनीलपुष्पाभावः इत्यादेह सामान्य अभावः विशेषावः विशेषविशेषाभावः इदा उदाहर्तव्याः अत्र इदानीमेव उक्तवती शुक्ति स्वातिनक्षत्रीयवृक्षिजलम् एव गृह्णाति तत्तु वृष्टिजल वृष्टिजल अभावस्य वृष्टिजल अभावस्य विशेषणस्य न महोदय शुक्तिः स्वातिनक्षत्रवृष्टिजल अभावं पश्यति अयं न कूपजले नदीजले वा आ, पश्यति निवा hmm. तत् पश्यति इतोपि वृष्टलेपि न तत शुद्धिः नक्षत्रिय, रिक्षि नक्षत्रीयवृक्षिजलस्य एव गृह्णाति अथवा स्वचीव चित्रनक्षत्रम् अपि तत् सम्बन्धि अपि वृष्टिं नेच्छति नाम चित्रानक्षत्रसम्बन्धि नेच्छति स्वचीनक्षत्रसम्बन्धि एव अतः अभावस्य प्रतियोगी न ना जलसामान्यं hmm. नास्ति वृष्टिजलसामान्यम् अतः तस्य प्रतियोगी विरोद्भावः सामान्य जलसामान्यं नास्ति तदेव वृक्षिजलसामान्यमपि नास्ति तस्य अभावः स्वातीयनक्षत्रवृक्षिजलमेव अभावः एव जलविशेष जलविशेषरूप वृष्टिजलस्यापि अयं विशेषः यत् स्वातीनक्षत्रीयवृष्टिजलम् अवगन्तुं वक्तुं परन्तु न सम्यक् वक्तुं न शक्नोमि महोदय परन्तु अवगच्छति वा तत्र जलं य तस्य तस्य पुनः कश्चन विशेषः यत् स्वचीनक्षत्रियवृष्टिजलं तस्य अयं तस्या अयम् अभावः नाम द्विवारं विशिष्टस्य जलस्य अयम् अभावः इदानीं तदानीमेव पुष्प अभावः hmm. नीलपुष्प अभावः शरत्कालनीलपुष्प अभावः शेष अभावः इति नील सर्वकालकनीलपुष्प अभावः इत्येव तद्वत् अस्ति सम्यक् इदानीं भगिनि तत्र चित्र चित्रसङ्ख्या चतुर्विंशति अत्र अस्ति नाम ट्वेण्टि फोर् चित्रसङ्ख्या वर्तते किं तत् प्रकारेण तथा एव कृपया इदानीम् अस्माकं स्वचीनक्षत्रियवृष्टिजलाभावं निरूपयतु तत्र चित्रसङ्ख्या ट्वेन्टि फोर् तत्र केवलं वृष्टिजलं च तस्याभावः इति प्रतिपादय इदानीम् अस्माकं विशेषविशेष अभावस्य कथं भवति निरूपणं स्वातीनक्षत्रवृष्टिजलनिष्ठा प्रतियोगिता निरूपित अनुयोगि अनुयोगिता आश्रय अभावः स्वातीनक्षत्रवृष्टिजलं निष्ठा प्रतियोगिता निरूपित अनियोगिता आश्रय अभावः भावः एव आ सम्यक् सम्यक् समीचीनं तदेव अतः एव स एव इदानीं किमर्थम् एतत् मया पुनर्कुमरं कृतम् इदानीं यथा सर्वैः इदानीं तत्र भेदः अवग अवगम्यः स्यात् इदानीम् अभावः तु एकः एव इति तथा वक्तुं शक्यते परन्तु तत्र त्रि त्रयाणाम् अभावानां कीदृशः विशेषः इति चेत् तत्र सर्वत्र प्रतियोगिताश्रयः तु भिन्नः वर्तते प्रथमे अभावे तत्र जला जलं जलाश् किं प्रतियोगिताश्रयः जलं जलसामान्यं वर्तते द्वितीय तु प्रतियोगिताश्रयः आसीत् वृष्टिजलं द्वितीय तु इदानीम् अस्माकं विशेषविशेष अभावे त तादृशे अभावे अथवा तादृशस्य अभावस्य प्रतियोगिता यः या तदाश्रयः भवति किं तत्र नक्षत्रीवृष्टि स्वाती नक्षत्रियवृष्टिजरम् इति तत्र प्रतियोगितासु भेदः एव वर्तते ओके सम्यक् सम्यक् तर्हि किं तर्हि किञ्चित् अग्रे गच्छामः इति अथवा कोऽपि तत्र वदतु कृपया तत्र पुष्पाभावः पुष्पसामान्य नीलपुष्प अपि च तत्र किं शरात्कालिक नीलपुष्प कः इदानीं कस्य इदानीं सियस तत्र सियसर् मूर्ति महोदय अस्तु महोदय कृपया तत्र नीलपु पुष्प पुष्पाभावः नीलपुष्पाभावश्च अपि च तत्र शरात्कालिकनीलपुष्पाभावः तत्र कृपया निरूपयतु नाम चित्रसङ्ख्या ट्वेण्टि फोर् तदुदाहरण तदुदाहरणानुसारं कृपया 24. ट्वेण्टि फोर् तद् उदाहरणानुसारं कृपया अभावत्रयं पुष्पसामान्याभावः नीलपुष्पभाव प्रयत्नं करोमि अतः विशेष इति उच्यते एवमेव सर्वत्र पुष्पसामान्यभावः नीलपुष्पभावः शरत्कालिकालिकनीलपुष्पभावः कालि, इत्यादयः इत्यादय इत्यादयः अवच्छेद भवति नीलपुष्पे अभावः अस्ति नीलपुष्प अपि अभाव mm -hmm. शरत्कालीनं mm. नीलपुष्पम् mm. अस्ति चेत् mm. पूजार्हं तत् गृहिणीतं गृहिणीत mm. अर्हति mm. सामान्यभावः well, तर्हि तत्र किं भवति पुष्पनिष्ठप्रतियोगितानिरूपित अनुयोगिताश्रय अभावः इति पुष्पसामान्याभावः नीलपुष्पनिष्ठप्रतियोगितनिरूपित अनुयोगिताश्रयः अभावः तादृशः अभावः विशेषाभावः अपि च शरत्कालीननीलपुष्पाभाव नीलपुष्पनिष्ठ प्रतियोगित निरूपित अनुयोगिताश्रयः यः अभावः सः विशेषविशेष अभावः इति उच्यते ओके तर्हि अग्रे महोदय भवान् एव महोदय कृपया अवच्छेदक किं तत्र अवच्छेदकत्वपदार्थवर्णनम् इति तत्र कृपया पठतु महोदय पुष्पनिष्ठा प्रतियोगिता निरूपित प्रतियोगिताश्रयः अभावः सम्यक् शरत्कालीन नीलपुष्प नीलपुष्पदिष्ट अनियोगिता निरूपित निरूप्य आश्रय प्रतियोगिता प्रतियोगितानिरूपित <sighs> <laughs> अनुयोगिताश्रयः अभावः इति विशेषविशेषभावः विशेष पुष्पं नीलपुष्पं शरत्कालीन शरद् शरत्कालीन नीलपुष्पम् हा सम्यक् तत् विशेषविषये त्रिष्टेदकता भवति महोदय तर्हि अग्रे कृपया अवच्छेदकत्वपदार्थवर्णनम् इति अग्रिमे पृष्यते पेज् ट्वेन्टि वन् तत्र कृपया प्रथमं परिच्छेदं पततु त्रयाणां एषं एव प्रतियोगी पुष्पं निष्ठा महोदय तत्र अग्रिमं पृष्ठं तत्र नूतनः नूतनः नूतनः विषयः आरभ्यते अवच्छेदकृत्वा पदार्थवर्णनं पश्यति वा महोदय अस्तु सर् अस्तु सर् सर, अग्रिम अग्रिमपृष्ठे पृष्टे कृपयाय लौकिकं निदर्शनं Hmm. अवच्छेदकत्वपदार्थवर्णनम् त्रयाणामेषां hmm. hmm. जलमेव प्रतियोगी तदापि जलनिष्ठाप्रतियोगितानाम् परस्परम भेदः अनु, अनुभवि कः अनुभवि अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्यभावस्य विरोधः ततः अन्य एव वृष्टिजले विद्यमानः विरोधः तस्य च सम्यक् ज्ञानार्थम् अत्रैव च अवच्छेत् अवच्छेद्यावच्छेद्यक भावमपि पश्यामः कश्चित् क्षीरविक्रेता क्षीरमादाय मादाय, मादाय आगतः mm -hmm. तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यमस्ति कीदृशं पात्रं वयं नयामः न द्रोणदश द्रोणदशक मानकं कुतः अतिवर्तेत नापि द्रोणद्वयमानकं कुतः न्यूनी न भवति किन्तु द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं यत्पात्रं पर्याप्तं भवेत् तदेव स्वीकुर्मः ततः किं कुर्मः विक्रेतुः समीपं गत्वा तस्य पुरतः पात्रं स्थापयामः विक्रेता च पात्रे तस्मिन् क्षीरं श्रावयति hmm. इदानीं किलकेन योग्येन पात्रेण कृतं द्रोणपञ्चकपरिमितं क्षीरं बृहत् पात्रगतक्षीरात् पृथक् क्षीरं दृष्ट्वा एवमागच्छामः इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नम् केन एवम् अस्माभिः पात्रेण तद्धि पृथक् पृथक् करोति इदं अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकम् शीरं, अवच्छेद्यं भवति क्षीरे अवे अवच्छेद्यता तयो भावः निरूप्यूपकभावमोदय एतावता एव इदानीम् अहमेव किञ्चित् वदामि यतो हि समयः पर्याप्तप्रायः किञ्चित् तदा वदामि इदानीं सर्वप्रथमं तत्र विशेषत्रयं क्षम्यताम् अभावत्रयं दृष्टम् अस्माभिः अपि च तत्र अभाव अभाव तत्र अभावे अनुयोगिता तत् तस्य तस्याः निरूपणसमये अस्माभिः दृष्टं यत् भवतु अभावः नाम अभावनिष्ठ सा अभाव एव अभावनिष्ठ अनुयोगिता एव सर्वदा त्रिषु एव उदाहरणेषु सर्वदा एव तिष्ठति परन्तु या प्रतियोगिता वर्तते या प्रतियोगिता तादृशम् अभावनिष्ठ अनुयोगितां निरूपयति तादृशी प्रतियोगिता वसतः त्रिषु उदाहरणेषु भिद्यते एव इदानीम् एतद् दृष्ट्वा अन्यः कश्चन विषयः आरभ्यते सः अपि अत्यन्तं प्रधानभूतः अत्यन्तं महत्त्वपूर्णः अस्ति सः अवच्छेद्य अवच्छेदकभावः इति कश्चन नूतनः भावः वर्तते यथा निरूप्यनिरूपक तदापि अवच्छेद्य अवच्छेदकः इदानीं प्रथमं यथा समानं सः किमपि लौकिकम् उदाहरणं प्रदर्शयति इदानीं यदि क्षीरम् अस्माभिः आनेतुं प्रारब्धं वर्तते तर्हि भवतु यदि तस्य क्षीरस्य अपि द्रोणपञ्चक पञ्चद्रोणम् अस्य क्षीरस्य अपेक्षितं वर्तते तर्हि कीदृशं पात्रं तद् द्रोणम् आनेतुं वयम् उपयुज्महे इति चेत् यावत् क्षीरम् अपेक्षितम् तावत् तावत् किम् तावत् यावत् यावत् द्रोणविशिष्टं क्षीरम् अपेक्षितं तावद् द्रोणविशिष्टं द्रोणं नाम कश्चन यथा लीटर् वा मिलि लीटर् इदानीं एकं द्रोणं वर्तते अहमपि न जाने परन्तु किमपि फोल्यूं फोल्युं परिमाणं डिवैडर् किमपि फोल्युं परिमाणं वर्तते भवति मापकं मापकम् आं सम्यक् तदा कश्चन पात्रस्य मापकं परिमा परिमापकं वर्तते सम्यक् महोदय तदेव इदानीं अनेन किम् इदा इति चेत् अनेन उदाहरणेन किम् इति चेत् इदानीम् अहं जनि वयं जानीमः इदानीं यदि कस्मिंश्चित् पात्रे कस्मिंश्चित् पञ्चद्रोणविशिष्टिपात्रे पञ्चद्रोणपरिमाणविशिष्टिपात्रे किमपि सम्पूर् एतत् पात्रं यदि सम्पूर्णतया यदि क्षीरपूर्णं वर्तते तर्हि एतत् क्षीरं पञ्चद्रोणपरिमाणम् अपि वर्तते इति एकम् अपि च यदि एतत् क्षीरम् अस्मिन् पात्रे तिष्ठति वयमपि जानीमः अस्मिन् पत्रे विद्यमानं क्षीरम् अन्यस्मै अन्यस्मिन् पत्रे विद्यमानात् क्षीरात् भिद्यते इति तदापि ज्ञातुं ज्ञातुं शक्नुमः अत एव क्षीरम् आदाय क्षम्यतां पात्रम् आदाय क्षीरं प्रचि वयं सर्वप्रथमं क्षीरस्य केचन गुणाः अपि जानीमः अपि च क्षीरस्य अन्येभ्यः अस्या क्षीरस्य अस्याक्षीरविशेषस्य अन्यस्मात् क्षीरविशेषात् अपि कश्चन भेदः कश्चन विशेषः अस्ति अयं क्षीरविशेषः अन्यस्मात् क्षीरविशेषः विशेषाद्भिन्नः इति अपि जानीमः अत एव एतत् पात्रं नाम क्षीरविशेषं धर्यमानं पात्रम् अस्य अस्य अस्य अस्य क्षीरस्य कश्चन विशेषकः भवति सः तत् क्षीरं विशेषयति एतत् क्षीरं पृथक् करोचि अद्यस्मात् क्षीरात् पृथक् करोति अपि च एतत् क्षीरम् उपरि किमपि विशिष्टं धार्मम् अपि विदधाति अत एव एतादृशम् एतादृशं पृथक् करणं एतादृशम् एतादृशं एतादृशः पृथक् कारकः यः सः अवच्छेदकः इति शास्त्रे व्यवह्रियते यत् अनेन पात्रेण अवच्छेद्यं विशेष्यमानं वर्तते अथवा विशेष्यं यत् वर्तते तत् क्षीरम् अत एव क्षीर क्षीरम् अवच्छेद्यं वर्तते अवच्छेद्यम् चेत् तर्हि तत्र अवच्छेद्यता अस्ति इदानीं पात्रः अव पात्रम् अवच्छेदकः अत एव तत्र अवच्छेदकथा क्षीरं तु अवच्छेद्यम् अत एव तत्रा क्षीरे अवच्छेद्यथा उभाव तु उभाव अपि नाम अवच्छेदकता अवच्छेद्यता सम्बन्धिकौ ये वस्तः इदानीम् अवच्छेदः इति अथवा सः अवच्छेदकः अस्ति कस्य इति यथा प्रश्नः साक्षादेव उदेति तथा एव तत्र प्राक् अस्माभिषये उक्तम् इदानीं यदि तादृशः प्रश्नः साक्षात् उत्पन्नः भवति तर्हि सर्वदा तयोः पद पदयो पदार्थयोः निरूप्यनिरूपकभावः अपि अस्माभिः कर्तुं शक्यः अतः एव तत्र पञ्चदश पञ्चविंशतितम चित्र चित्रं यत् वर्तते तत्र पात्रं अस्मिन् पत्रे अवच्छेदकथा तर्हि पत्रनिष्ठावचिद् कथा अवचेदकथा निरूपित अवचिद्यता वर्तते इत इम् इयम् अवचिद्यता क्षीरे अत एव पत्रनिष्ठावचिद् कथा निरूपित अवचिद्यताश्रयः क्षीरम् अथवा क्षीरनिष्ठावचिद्यता निरूपित अवचिद् कथाश्रयः पात्रम् इति अवशीयते परन्तु भवतु इदानीं समर्पयामः इदानीं स्थापयामः अग्रिमे वर्गे पुनारकवारं यत् पतामः पुनारकवारं तत् कृते किञ्चित् चिन्तयामः भवतु तर्हि प्रश्नः सन्ति चेत् कृपया पृच्छन्तु अन्यथा अग्रिमे वर्गे एव पृच्छन्तु अथवा अग्रिमे वर्गे पुनारकवारम् एतत् पृष्टं पुनारकवारं पतामः इति मन्ये तर्हि अत्र धन्यवाद धन्यवादः धन्यवाद महोदय